गणेशपुराणं क्रीडाखण्डम् अध्यायं सेवेण्टि टु क उवाच पूर्वमेव च दूदेन कथितोत्सविनायकः अदित्यैकाशिराजेन रथस्तेन सहागदः तदस् तद्वियोगेन धावमानायौ पुरः औत्सुक्यत्वरितवेदनाञ्जलं पदितं स्वकं दृष्ट्वा तां मुनिपुत्रोऽपि रथास्प्रकृत्य सत्वरः आययौ माधुरभ्याशमालिलिङ्गच तां मुदा आनन्दाश्रुमोचासौ सोऽपि बाष्पं चिरागतः मुहूर्तमेकभावं तौ गच्छेतां पयसी इव ददौ स्नेहात् स्वस्तचित्तास्तनपानं मुदादिः प्रमृज्यनेत्रे प्रोवाच श्रान्दोऽसि बहुवा सरं तदो राजा जगौ गद्गदभाषया राजो वाचा नीत्वा विनायकं देवं यादास्तु बहुवासराः अदो न कोपं त्वं मयि कर्तुमिहार्षसि वियोगं नाश्य सोढुं च मुनिप्रिये न तृप्तिरस्ति पीयूषे नौ दासिन्यं निधावपि दिने दिने नवप्रेमवर्धयत्येष वर्धयत्येशनो गृहे उत्पादा बहवो नेन पुरेणो विनिवारिताः असङ्ख्यादा दैत्यादेवाश्च मुदमापिताः बहुला च कृता धर्मसेदवः पौरुषं च प्रधानेन कृतं नेन्द्रादिभिः कृतम् क उवाच एवं स सर्ववृत्तान्तं तदो विदिस्तु दध्यन्नं भ्रामयित्वा त्यजद्बहिः दुष्टदृष्टिनिपातस्य शान्तये बालकोपरि तदो बालं स नृपतिं निनायाश्रममण्डलं कश्यपो हि बहिर्यादो दृष्ट्वा पुत्रं सभूपदिम् भूपतिं तौ तं च नेमदुर्भक्त्या बद्धाञ्जलिपुडावुभौ आलिलिङ्गमुनिस्तौ च मूग्धन्याक्रायमुदा तदा उवाजरुद्धकण्डोस वङ्गे कृत्वा विनायकं काशीराज नोचितं ते बालं नीत्वा विलम्बनं शीघ्रमे वानयिष्येकमित्युक्त्वा नीतवान् कथं वियोगेनास्य तप्तानां मङ्गानां मेधुना नृप जादा शीतलता पुण्याद्दर्शनादस्य साम्प्रतं क उवाच तदऊचे काशिराजो निपीय मुनिभाषितम् उपविश्यासने रम्ये प्राप्यनुज्ञां मुनेर्नृपः नृप उवाच अस्यैव मायया जादा सत्यदामे मे मुनीश्वर मद्गृहं देवदेवेन स्वकीयमिति अवाप्तकामो देवोऽयं स्वकामवशगो मुने सम्पाद्य मम पुत्रस्य विवाहं समुपागतः त उवाच तस्य दैत्यवधादीनि कर्माण्यस्मै न्यवेदयद तदो जहर्षतुरुभौ मुनिपत्नीमुनिश्च सह ज्ञात्वा पराक्रमं तस्य स्वपुत्रस्य गुणान् बहून् ततस्ते भोजनं चक्रुषड्रासान् सादरं दत्त्वाशीर्वचनं तस्मै विससर्जनृपं मुनिः सोपि प्रणनामाधप्रादक्षिण्येन निर्ययौ प्राप्यानुज्ञां नेत्रयुग्मान् मुञ्चन्नश्रु सुदुःखितः स्मरन् गुणगणं तस्य स्नेहनिर्भरमानसः शीघ्रं प्रयादो नगरं वाद्यघोषसमन्वितः सर्वे नागरिकबालविनायकदिदृक्षयः आगदा ददृश्युस्तत्र ततो दुःखितमानसाः निरीक्ष्य तं काशिराजं ययुष्वं स्वं निकेतनम् अपरेद्युः सर्वपौराः पप्रच्युस्तम् नृपम् मुदा यास्य इत्युक्तवान् देवो नागदः स कथं नृप तु निष्ठुरभावेन त्यक्त्वा कथमागदः राजोवाच अत्यन्तं प्रार्थितो देव उक्तवान् मां मुनिप्रियः मन्मूर्तिस्थापनं कृत्वा सेवध्वं सर्व एव मां वियोगो न च सर्वान् धर्यामिना भक्कथञ्चन तदस्ते कारयामासुर्मूर्तिं दातुमयीं शुभाम् चतुर्भुजां त्रिनयनां सर्वभूषणभूषितां शूर्पकर्णां गजमुखीं सर्वावयवसुन्दरां डुण्डिराजयदिनाम्नादा स्तापयामासुरादरादऋत्विग्भिर्ब्राह्मणैरन्यैर्वेदशास्त्रविशारदैः प्रसादं परमं कृत्वा पुपूजुस्ते दिने दिने येन येनैव कामेन पूजयेद्यो विनायकं तं तं ददाति तस्मै स भक्त्या सम्पूजितो विभुः एवं नानामूर्तिधरो भ्राजते स्म विश्वेश्वरे स्वनगरं यादे सर्वसुरैः सह दिवो दास्ये च विमुक्ते काशिराजे सुखं विनायको मुनिं प्राक् कश्यपम्मादरं च दाम् अहं ते पुत्रदां यादस्तपसाराधितः पुरा भूभारश्च हृदः सम्यक् दैत्यौ महाबलौ त्रैलोक्यपीडकौ दुष्टौ वेदान्तकनरान्तकौ देवाश्च साधवश्चैव रक्षितास्तापिताः परे इदानीं तु गमिष्यामि निजलोकं चिरन्तनं क उवाच श्रुत्वा वाक्यमुभौ खिन्नौ बाष्पकण्ठौ तमूचदुः कदा दर्शनं देव पुनरावां भविष्यदि तदः समादरं प्राह दर्शनं मे भविष्यदि भवान्या मन्दिरे मादसत्यं मे प्रियभाषितम् एवं श्रुत्वा देववाक्यं पुनर्यावद्वदत्यसौ तावदन्तर्हितो देवस्ततस्तौ खिन्नमानस्सौ कारया मा सदुर्मूर्तिं प्रासादं चाधिशोभनं विनायकेदिसामास्यचक्रदुर्भक्ति तत्परौ तस्यां मोक्तौ ध्यादमात्रो नित्यं दर्शयदे विभुः स्वात्मानं सर्वगं नानारूपिणं स विनायकः कृत्समद उवाच एवं कीर्ते समाख्यादं चरितं ते मया शुभम् विनायकस्य देवस्य श्रवणा सर्वसिद्धिदं धन्यं यशस्यमायुष्यं सर्वोपद्रवनाशनं सर्वकामप्रदं सर्वपापसञ्जयनाशनं पुनस्ते कथयिष्यामि सिन्धुदैत्यवधाय सः अवतीर्ण शिवगृहे मयूरेश्वरसंज्ञः बाल्यात् प्रभृत्यद्भुतानि नानाकर्माणि यो करोत् इति श्रीगणेशपुराणे विनायक विनायकचरित्रकथनं नाम द्विसप्ततितमोऽध्यायः ओ